हरि ओम् श्रीसीतारामचन्द्राभ्याम् नमः अथ श्रीमद्वाल्मीकि रामायणे युद्धकाण्डे सप्ताशीतितमः सर्गः इन्द्रजीतविभीषणयोः सरोष संवादः एवम् उक्त्वा तु सौमित्रिम् जातः चो विभीषणः तमादाय सरमाणो जगामसः अविदूरम् ततोगत्वा गत्वा प्रविश्य तु अदर्शयत तत्कर्म लक्ष्मणाय विभीषणः नीलजीमुत सङ्गाशम् न ग्रोधम् भीमदर्शनम् तेजस्वी रावण भ्राता लक्ष्मणाय न्यवेदयत् इहोपहारम् भूतानाम् बलवान् रावणात्मजः उपहृत्य ततः संग्रामं सङ्ग्रामम् अभिवर्तते अदृश्यः सर्वभूतानाम् ततो भवति राक्षसः निहन्ति समरे शत्रून् बध्नाति च शरोत्तमे तमप्रविष्टम् निग्रोधम् बलिनम् रावणात्मजम् विध्वंसयशरे दीप्तै स्वरथम् शाश्वसारथिम् तथेत्युक्त्वा महातेजा स्वमित्रिर्मित्रनन्दनः बहु अवस्थितः तत्र चित्रम् विस्फारयन् धनुः स्वरथेनाग्निवर्णेन भरवान् रावणात्मजः इन्द्रजीत् कवची खड्गी श्रद्धजः प्रत्यदृश्यते तम् उवाच महातेजा पौरस्त्यम् समाह्वये त्वाम् समरे सम्यग् युद्धम् प्रयच्छमे एवम् उक्तो महातेजा मनस्वी रावणात्मजः अब्रवीत् परुषम् वाक्यम् तत्र दृष्ट्वा विभीषणम् इह तम् जात संवृद्ध साक्षाद्भ्रातापितुर्मम कथम् ध्रुरीह्यसि पुत्रस्य पितृभ्यो मम न ज्ञाति तं न सौहार्दम् न जातिस्तव दुर्मते प्रमाणम् न च सौधर् सौन्दर्यम् न धर्मो धर्मदूषण स्वच्छ त्वमासि दुर्बुद्धे निन्दनीयश्च सदुभि यस् तं सजनमृत्सुज बुद्ध्या तं वृत्ति महदन्तरम् सजन स्वजन संवास क्वच नीच पराश्रयः गुणवान् वा परजनः स्वजनो निर्गुणोऽपि वा निर्गुणः स्वजनः श्रेयान् यः पर पर एव सः यः स्वपक्षम् परित्यज्य परपक्षम् निशेवते। स स्वपक्षे क्षयं याति पश्चात्तैरेव हन्यते निरनुक्रोशता चेयम् निशाचरे स्वजनेन त्वया शक्यम् पौरुषम् रावणानुजः इत्युक्तो भ्रातृपुत्रेण प्रत्युवाच विभीषणहे अजानन्निव मच्छीरम् किम् राक्षस विकथते राक्षसैन्द्रसुता साधु पारुष्यम् च कुले यद्यप्यहम् दातु रक्षसाम् क्रूरकर्मणाम् गुणोय प्रथमो नृणाम् तन्मे शीलमराक्षसम् ना न रमे दारुणेनाहम् न च वैरमे भ्रात्रा विषमशीलोऽपि कथम् भ्राता निरस्यते धर्मा प्रच्युतशीलम् हि पुरुषम् पापनिश्चयम् त्यक्त्वा सुखम् अवाप्नोति हस्ता दाशी विषम् यथा परस्वहरणे युक्तम् परदाराभिमर्शकम् त्याज्यम् आहूदुरात्मानम् विष्म प्रज्वलितम् यथा परस्वानाञ्च परदाराभिमर्शनम् सुहृदाम् तिशङ्का च त्रयो दोषा क्षयावः महर्षीणाम् वधो घोर सर्वदैवै च विग्रह अभिमानश्च दोषश्च एते दोषाः मम भ्रातु जीवतैश्वर्यनाशन गुणान् प्रच्छादयामासु पर्वतान्निवतो यदा दोषयेति परित्यक्तो मया भ्राता पिता तव नेयम् अस्ति पुरीलङ्का न च न वेदनते पिता अतिमानश्च बालश्च दुर्विनीतश्च राक्षस बद्धस्तं कालपाशेन ब्रूहि मां यद्यदिच्छसि अद्यैव व्यसनम् प्राप्तम् यन्माम् परुषमुक्तवान् प्रवेष्टुम् न त्वया शक्यम् न ग्रोधम् राक्षसाधम धर्षयित्वा न काकुत्स्थम् जीवितुम् त्वया युद्धस्व नरदेवेन लक्ष्मणेन अरुणे हतस्तं हतस्तम् देवता कार्यम् करिष्यसीयमक्षयम् निरसये स्वात्मबलम् कुरुष्व सर्वायुधसायकव्ययम् न लक्ष्मणश्चैत्य हि वर्णगोचरम् तम् अद्य जीवन् सबलो गमिष्यसि इत्यार्थे श्रीमद् रामायणे वाल्मीकि अधिकव्ययुद्धकण्डे सप्ताशीतितमः सर्गः श्रीसीतारामचन्द्रार्पणमस्तु